चतुर्थः सर्गः प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानुषिः चकारचरितम् कृत्स्वम् विचित्रपदमर्थवत् चतुर्विंशत्सहस्राणि श्लोकानामुक्तवान् ऋषिः तथा सर्गशतान् पञ्चषट्काण्डानि तथोत्तरम् कृत्वा तु सहोत्तरम् चिन्तयामास कोऽन्वेतत् प्रयुञ्जीयादिति प्रभुः तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः अगृह्णीताम् ततः पादौ मुनिवेषौ कुशीलवौ कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ भ्रातरौ स्वरसम्पन्नौ ददर्शाश्रमवासिनौ स तु दृष्ट्वा वेदेषु परिनिष्ठितौ वेदोपब्रह्मणार्थाय तावग्राहयत प्रभुः काव्यम् रामायणम् कृत्स्वम् सीतायाश्चरितम् महत् पौलस्त्यवधमित्येवम् चकारचरितव्रतः पाठ्ये गेये च मधुरम् प्रमाणैस्त्रिभिरन्वितम् जातिभिः सप्तभिर्युक्तम् रसै रसैः शृङ्गारकरुणहास्य रौद्रभयानकैः वीरादिभिरसैर्युक्तम् काव्यमेतदगायता तौ तु गान्धर्वतत्त्वज्ञौ स्थानमूर्च्छनकोविदौ भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविवरूपिणौ रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ बिम्बादिवोत्थितौ बिम्बौ रामदेहात्तथापरौ तौ राजपुत्रौ कार्त्येन धर्म्यमाख्यानमुत्तमम् वाचोऽभिधेयम् तत्सर्वं कृत्वा काव्यमनिन्दितौ ऋषीणाम् च द्विजातीनाम् च समागमे यथोपदेशम् तत्त्वज्ञौ जगतु सुसमाहितौ महात्मानौ महाभागौ सर्वक्षणलक्ष कदाचि सृषीण ना भाव आत्मे सभम समीपस्थिद का्यमता तछ्रुवा मुनये बापरियाकुे क्षण साधु साध्वितवूच परस्मयता ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः प्रशशम्सः प्रशस्तव्यौ गायमानौ कुशीलवौ अहो गीतस्य माधुर्यम् श्लोकानाम् च विशेषतः चिरनिर्वृत्तमप्येतत् प्रत्यक्षमिव दर्शितम् प्रविश्यता बभू सुष्ठु तथा भावमगायता सहितौ मधुरम् रक्तम् सम्पन्नम् स्वरसम्पदा एवम् प्रशस्यमानौ तौ तपश्लाघ्यैर्महर्षिभिः संरक्ततरमत्यर्थम् मधुरम् तावगायता प्रीतः कश्चिन्मुनिस्ताभ्याम् संस्थितः कलशम् ददौ प्रसन्नो बल्कलम् कश्चिद् ददौ महायशाः अन्यः कृष्णाजनवदाद्यज्ञसूत्रम् तथा परः कश्चित् कमण्डलुम् प्रादान्मौजीमन्यो महामुनिः वृसीमन्यस्तदा प्रादात् कौपीनमपरो मुनिः ताभ्याम् ददौ तदा हृष्टः कुठारमपरो मुनिः काषायमपरो वस्त्रम् चीरमन्यो ददौ मुनिः जटाबन्धनमन्यस्तु काष्ठरज्जुम् मुदान्वितः यज्ञभाण्डमृषः कश्चित् काष्ठभारम् तथा परः औदम्बरीम् वृसीमन्यः स्वस्ति केचित्तदावदन् आयुष्यमपरे प्राहुर्मुदा तत्र महर्षयः ददुश्चैवम् वरान् सर्वे मुनयः सत्यवादिनः आश्चर्यमिदमाख्यानम् मुनिना सम्प्रकीर्तितम् परम् कवीनामाधारम् समाप्तम् च यथा क्रमम् अभिगीतमिदम् गीतम् सर्वगीतिषु आयुष्यम् पुष्टिजनम् सर्वश्रुतिमनोहरम् प्रशस्यमानौ सर्वत्र कदाचित्तत्र गायकौ रथ्यासु राजमार्गेषु ददर्श भरताग्रजः स्ववेश्मचानीय ततो भ्रातरौ सकुशीलवौ पूजयामास पूजार्हौ रामः दिव्ये स प्रभुः उपोपविष्टैः सचिवैर्भ्रातृभिश्च समन्वितः दृष्ट्वा तु रूपसम्पन्नो विनीतौ भ्रातराबुभौ उवाच लक्ष्मणम् रामशत्रुघ्नम् भरतम् तथा श्रूयतामेतदाख्यानमनयोर्देववर्चसोः विचित्रार्थपदं सम्यग्गायकौ समचोदयत् तौ चापि मधुरम् रक्तम् स्वचित्तायत निःस्वरम् तन्त्रीलय वदत्यर्थम् विश्रुतार्थमगायता ह्लादयत् सर्व गात्राणि मनान्सि हृदयानि च श्रोत्राश्रय सुखम् गेयम् तद्बभो मुनी पार्थिव लक्षणान्वितौ कुशीलवौ चैव महातपस्विनौ ममापि तद्भूतिकरम् प्रचक्षते महानुभावम् चरितम् निबोधता ततस्तुतौ रामवचः प्रचोदितावगायताम् मार्गविधान सम्पदा स चापि रामः सक्तमना बभूव इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्थः